श्रीगणेशाय नमः शंकर शङ्कराभ्यां नमः अथ श्री शिवमहापुराणे विद्देशरसंहितायाम् अष्टादशोऽध्यायः बन्ध मोक्षस्वरूपं शिवलिङ्गमहात्म्यं च कृषे वचो बन्ध मोक्षस्वरूपं हि गृहि सर्वार्थवेत्तमः बन्धं मोक्षं तथोपायम् पक्षेऽहं शृणुता धरात् प्रकृत्यादि अष्टबन्धेन बद्धो जीवस्य उच्यते प्रकृत्यादि अष्टबन्धेन निर्मुक्तौ मुक्त उच्यते प्रकृत्यादिवशीकारो मोक्ष इत्युच्यते ततः बद्धजीवस्तु निर्मुक्तो मुक्तजीवश्च कथ्यते प्रकृत्याग्रित बुद्धिः अहङ्कारो गुणात्मकः पञ्चतन्मात्रमित्येत प्रकृत्याकं विदुः प्रकृत्या ज्योदेः देहजं कर्म उच्यते पुनश्च कर्म कर्म पुनः पुनः शरीरं त्रिविधं ज्ञेयं स्थूलं सूक्ष्मं च कारणं स्थूलं व्यापारदम् प्रोक्तम् सुखम् इन्द्रियभोगरम् कारणं स्वात्मभोगार्थं जीवकर्मानुरूपतः सुखं दुःखं पुण्यपापै कर्मभिः फलमश्नुते तस्माद्धि कर्म रज्ज्वाहि तस्मा बद्धो जीवः पुनः पुनः शरीरत्रयकर्मभ्यां चक्रवद्भ्राम्यते सदा चक्रभ्रम निवृत्यर्थं चक्रकर्तार मीलयेत् प्रकृत्यादि महाचक्रम् प्रकृते परतः शिवः चक्रकर्ता महेशो हि प्रकृते परतो यतः जीवन् पिबति वा बालो वा मत्यथ जलं यथा शिवस्तथा प्रकृत्यादि दि। सर्वं वशीकृतं यस्मात् तस्मात् शिव इति शिवैव हि सर्वज्ञ परिपूर्ण च नित्य सर्वज्ञता तृप्त्यनादिबोध स्वतन्त्रता नित्यमलुप्तशक्ति अनन्तशक्तिः च महेश्वरस्य यन्मानस ऐश्वर्यम वैति वेद अत शिवप्रसादेन प्रकृत्यादिवशं भवेत् शिवप्रसादलाभार्थम् शिवमेव प्रपूजयेत् निस्पृहस्य च पूर्णस्य तस्य पूजा कथं भवेत् शिवोद्देश कृतं कर्म प्रसाद जनकं भवेत् लिङ्गे वेरे भक्तजने शिवम् उद्दिश्य पूजयेत् कायेन मनसा वाच धनेनापि प्रपूजयेत् पूजया तु महेशो हि प्रसादम् कुरुते सत्यम् पूजकस्य विशेषतः शिवप्रसादात् कर्माद्यम् क्रमेण स्ववशम् भवेत् कर्मारभ्य प्रकृत्यन्तम् यदा सर्वम् वशम् भवेत् तदा मुक्त इति प्रोक्तः स्वात्मा रामो विराजते प्रसादात् परमेशस्य कर्मदेहो यदा वशः तदावे शिव शिवलोके तो वाचस्य मुच्य से सामीप्यम सेम त्रे चशंगते तदा तो शिवसाज्य आयुधा क्रिया महाप्रसाद लाभे बुद्धिच्चा वशं भव बुद्धिस्वते तत्सृष्टि कथ्यसेन प्रसादन शमेष्यति शिवस्य मानसैश्वर्यम् तदायत्नं भविष्यति सर्वज्ञाद्यं शिवैश्वर्यम् लब्ध्वा स्वात्मनिरायते तत्सायोज्यम् इति प्राहु वीरागमपरायणः एवं क्रमेण मुक्तिः स्यात् लिङ्गादौ पूजयास्वतः अथश्चैव पूजये शिवम् शिवक्रिया शिवतपः शिवमन्त्र जपश्च शिवज्ञानम् शिवध्यानम् उत्तरोत्तरमभ्यसेत् आसूते अमृते कालम् नये द्वयि शिवचिन्तया पद्यादिभिश्चे कुसुमै, अस्ये शिवमेशति ऋषयुचु लिंगादो देव पूजाय विधानं ब्रूहि सुव्रतः उवाच लिङ्गानां च क्रमं वक्षे यथाव शृणत द्विजा तदेव लिङ्गं प्रथमं प्रणवं सार्वकामिकम् सूक्ष्म प्रणवरूपं हि सूक्ष्मरूपं तु निष्कलं स्थूलिङ्गं हि सकलं तत्पञ्चा पञ्चाक्षरमुच्यते तयो पूजा तपप्रोक्तं साक्षात् मोक्षपदे पौरुष प्रभृतिभूतानि लिङ्गानि सुबहूनि च सानि विस्तरतो वक्तुं शिवो वेत्ति न चापरहे भूविकाराणि लिङ्गानि जातानि प्रभ्रुवीमिव स्वयं भू प्रथमं लिङ्गम् बिन्दुलिङ्गम् द्वितीयकम् प्रतिष्ठितं चरं चैव गुरुलिङ्गं तु पञ्चमम् देवश्चि तपसातुष्ट सान्निध्यार्थं तु तत्र वै पृथिव्यन्तर्गत शर्वो बीजं वै नादरूपतः सावरङ्गुरवद्भूमिमुद्भिद्य व्यक्त एव स स्वयम्भूतं जातमिति स्वयम्भूर्जितं विदुः तल्लिङ्गपूजय ज्ञानं स्वयमेव प्रवर्धते सुवर्णरजतादो पृथिव्यां तण्डिलेपि वा स्वस्तात् लिखितम् लिङ्गम् शुद्धप्रणय मन्त्रकम् यन्त्रलिङ्गम् समालिख्य प्रतिष्ठावाहनं चरेत् बिन्दुनादमयं लिङ्गम् स्थावनम् जङ्गमं चयेत् भावनामयमेतद्धि शिवदृष्टं च संचयत् यत्र विश्वस्य ते शम्भु तत्र तस्मै परप्रद स्वहस्तात् लिख्यते यन्त्रे स्थावरादादौ अकृत्रिमे अवाह्यपूजये शम्भुम् षोडशै उपचारकैः स्वयम् ऐश्वर्यमाप्नोति ज्ञानम् अभ्यासतो भवेत् देवै च ऋषिभिः चापि स्वात्मसिद्ध्यर्थमेव हि समन्त्रेणात्महस्तेन कृतं यत् शुद्धमण्डले शुद्धभावनया चैव स्थापितम् लिङ्गमुत्तमम् तल्लिङ्गम् पौरुषम् प्राहु तत्प्रतिष्ठितमुच्यते तल्लिङ्गम् पूज्य नित्यम् पौरुषैश्वर्यमाप्नुयत् महद्भिः ब्राह्मणैश्चापि राजभिश्च महाधनैः शिल्पिना कल्पितम् लिङ्गम् मन्त्रेण स्थापितं च यत् प्रतिष्ठितम् हि कृतैश्वर्य भगदम् यदूर्जितम् च नित्यं च तद्धि पौरुषमुच्यते यद् दुर्बलं नित्यं च तद्धि प्राकृतमुच्यते लिङ्गम् नाभिस्तथा जिह्वा नासागरं च शिखाक्रमात् कट्यादिषु त्रिलोकेषु लिङ्गमाध्यात्मिकं चरम् पर्वतं पौरुषम् प्रोक्तम् भूतलम् प्राकृतम् विदुः वृक्षादि पौरुषम् नेयम् गुल्मादि प्राकृतम् विदुः शाष्टिकम् प्राकृतम् नेयम् शालि गोधूमपौरुषम् ऐश्वर्यम् पौरुषम् विद्या अणिमादि अष्ट सिद्धिदम् सुस्त्री धनादिविषयम् प्राकृतम् प्राहुरास्तिकाः प्रथमं चरलिङ्गेषु रसलिङ्गम् प्रकथ्यते रसलिङ्गम् ब्राह्मणानाम् सर्वाभिश्च प्रदम्भवेत् बाणलिङ्गम् क्षत्रियाणाम् महाराज्यप्रदम् शुभम् स्वर्णलिङ्गम् तु वैश्यानाम् महाधन पतिपदम् शिलादिलिङ्गम् तु शुद्राणाम् महाशुद्धीकरम् शुभम् पाटिकम् बाणलिङ्गम् च सर्वेषां सर्वकामदम् स्वीयाभावेन तु पूजायां न निषिध्यते स्त्रीणा तु पार्थिवं लिङ्गम् स भस्तृणां विशे विशेषतः विधवानां प्रवृत्तानां स्फाटिकम् परिचेति विधवानां प्रवृत्तानाम् रसलिङ्गम् विशेष्यते बाल्ये वा यौवने वापि वार्धके वापि सुव्रतः शुद्धस्फटिकलिङ्गं तु स्त्रीणां तत् सर्वभोगदम् प्रवृत्तानां पीठ पीठपूजा सर्वाभिश्च प्रदा भुवि पात्रेणैव प्रवृत्तस्तु सर्वपूजाम् समाचरेत् अभिषेकान्ते च नैवेद्यम् चालन्येन समाचरेत् पूजान्ते स्थापयेत् लिङ्गम् सम्पुटेषु पृथग्गृहे करपूजा निवृत्तानां सभोज्यं तु निवेदयेत् निवृत्तानां परं सूक्ष्मम् लिङ्गमेव विशिष्यते विभूत्याभ्यर्चनम् कुर्यात् विभूतिं च निवेदयेत् पूजां कृत्वा तल् तल्लिङ्गम् शिरसा धारयेत् सदा विभूति त्रिविधां प्रोक्ता लोकवेद शिवाग्निभिः लोकाग्निजमथो भस्म द्रव्यशुद्ध्यर्थमावहेत् मृद्दारुलोहरूपाणाम् धान्यानां च तथैव च तिरादीनां च द्रव्याणां वस्त्रादीनां तथैव च तथा पर्युषितानां च भस्मनः शुद्धिरिष्यते स्वादिभिदूषितानां च भस्मना शुद्धिरिष्यते स जलं निर्जलं भस्म यथा योग्यं तु योजयेत् वेदा तथा भस्म तत्कर्मान्तेषु धारयेत् मन्त्रेण क्रियया जन्यम् कर्माग्नो भस्मरूप धु कर्म स्वात्मन्या रूपितम् भवेत् अघोरेणात्ममन्त्रेण निर्वकाष्ठम् प्रदाहयेत् शिवाग्नि सम्प्रोक्त तेन दग्धम् शिवाग्निजम् कपिलाय गोमयम् पूर्वम् केवलम् गव्यमेव क्षम्य शत्रपलाशान् वा वटारधीकान् शिवाग्निनादहे शुद्धम् सर्वे भस्म शिवाग्निजम् दर्भाग्नो वा दहेत् काष्ठम् शिवमन्त्रम् समुच्चरन् सम्यक् संशोध्य वस्त्रेण नवकुम्भे निधापयेत् तत्तु सङ्ग्राह्यं मन्यते पूज्यते पूज्यतेऽपि च पूर्वं तथा करोत् यथा स विषये राजा सारं गृह्णाति यत्करं यथा मनुष्या सस्यादीन् दैर्ध्वासारं भजन्ति वै यथा हि जाटराग्निश्च भक्ष्यादीन् विविधान् बहून् दैध्वासारं <coughs> सारात् स्वदेहं परिपुष्यते तथा प्रपञ्च कर्तापि स शिव परमेश्वरः स्वाधिष्ठेय प्रपञ्चस्य दैवीतवान् दैव्वा प्रपञ्चम् तद्भस्म स्वात्मन्यारोपय शिव उद्धूलनस्य व्याजेन जगत्सारं गृहीतवान् स्वरत्नम् स्थापयामास स्वकीयैः शरीरके केशमाकाशधारेण वायुसारेण वै मुखम् हृदयं चानुसारेण स्वपांसारेण वै कटिं चानुचावसारेण सर्वत्सर्वं तदङ्गकम् ब्रह्मविष्णोश्च रुद्राणां सारं चैव त्रिपुण्डकम् तथा विलैकरूपेण ललाटान्ते महेश्वर भ्रूवृद्ध्या सर्वमेतद्धि मन्यते स्वयमित्यसौ प्रपञ्चसार सर्वस्वेनैव <coughs> वशीकृतं तस्माद वशीकर्ता नास्तीति सिवस्तु यथा सर्व मृगाणां च हिंसको मृगहिंसकः तस्य मृगो नास्ति तस्मात् सिंह इति ऋतः सुखमानन्दम् इकारे पुरुषस्तुतः स्वकारे शक्तिरमृतम् मेलनम् शिव उच्यते तस्मादेवं स्वमात्मानम् शिवम् कृत्वा अर्चयेत् शिवम् तस्मादुद्धोलनम् पूर्वम् त्रिपुण्ड्रम् धारयेत् परम् पूजाकाले हि स जलम् शुद्ध्यर्थं भवेत् दिवा वा यदि वा पूजार्थं स जलम् भस्म त्रिपुण्ड्रेणैव धारय त्रिपुण्ड्रम् स जलम् भस्म धृत्वा पूजां करोति य शिवपूजा फलं साङ्गम् तस्यैव हि सुनिश्चितम् भस्म वै शिवमन्त्रेण धृत्वा हत्याश्रमे भवेत् शिवाश्रमे इति शिवैक परमो यतः शिववृतेकनिष्ठस्य न शोचम् न च सूतकम् लाटे ग्रे सितम् बस्व तिरकम् धारयेन् मृदः स्वस्ताद्गुरुहस्ताद्वा शिवभक्तस्य लक्षणम् गुणान्रुन्ध इति प्रगुरुशब्दस्य विग्रह स विकारान् राजसादीन् गुणान्रुन्धे व्यपोहति गुणातीतः परशिवो गुरुरूपं समाश्रितः गुणत्रयं व्यपोह्याग्रे शिवम् बोधयति स विश्वस्तानां तु शिक्षणं गुरु गुरुरीत्याभिधीयते तस्मात् गुरुशरीरं तु गुरुलिङ्गम् भवेद्बुध गुरुलिङ्गस्य पूजा तु गुरुशुश्रूषणम् भवेत् धृतम् करोति शुश्रूषा कायेन मनसा गिरा उक्तम् यत् गुरुणा पूर्वम् शक्यं वा शक्यमेव वा करोत्येव हि पोतात्मा प्राणैरपि धनैरपि तस्माद् वैशासने योग्य शिष्या इत्यभिधीयते शरीराद्यर्थकम् सर्वम् गुरोर्धत्वा सुशिक्षकः अग्रपाकम् भुञ्जयत् गुरुन्युदयात् शिष्य पुत्र इति प्रोक्तः सदाशिष्य त्वयो गतः जिह्वालिङ्गान् मन्त्रशुक्रन् कर्णयो नो निषिच्य वै दातः पुत्र मन्त्रपुत्र पितरम् पूजयेत् गुरुम् निमज्जयति पुत्रं वै संसारे जनक पिता संतारयति गुरुर्वै बोधक पिता उभयोन्तरं ज्ञात्वा पितरं गुरुमर्चयेत् अङ्गशुश्रूषया चापि धनाद्यै स्वाजितय गुरुम् पादादिकेशपर्यन्तं लिङ्गान्यङ्गानि यद्गुरः धनरूपै पादुकाद्यै पाद सङ्ग्रहादिभिः स्नाभिषेक नैवेद्यै भोजने च प्रपूजयेत् गुरुपूज्यैव पूजा शिवस्य परमात्मनः गुरुसेवा तु यत् सर्वम् आत्मशुद्धीकरम् भवेत् गुरोशे च शिवोच्छिष्ट जलम् मन्नादिनिर्मितम् शिष्याणाम् शिवभक्तानाम् ग्राह्यम् भोजम् भवेद्विवा गुर्वत् गुर्वज्ञो विरहितं चोरवै सकलं भवेत् गुरोरपि विशेषज्ञम् यज्ञ गृह्णीत वै अज्ञानमोचनं साध्यं विशेषज्ञो हि मोचकः अधो च कर्तव्यं कर्म पूर्तये निर्विघ्नेन कृतं साङ्गम् कर्म वै सफलं भवेत् तस्मात् सकल विघ्नेशं पूजयेद्बुध सर्वबाधा निवृत्यर्थं सर्वान् देवान् यजेद्बुधरादि ग्रन्थिरोगा च बाधायाध्यात्मिकी मता पिशाचृकादीनां वल्मिका युद्भवे तथा अकस्मादेव गोधादि जन्तूनां पतनेऽपि च गृहे कश्चप सत्पस्त्री दुर्जनान्दर्शनेऽपि च वृक्ष नारिकवादीनां प्रसूति विषयेऽपि च भावे दुःखं समायाति तस्मात्तै भौतिकामता अमेध्या शनिपातश्च महामारी तथैव च गर्मारी विसोचीश्च गोमारी च मसूरिका जन्मक्ष गृहसंक्रान्ति गृहयोगाय स्वराशिके दुःस्वप्नदर्शनाद्याश्च मता वैह्याधिदैविका चाण्डालपतित पश्चादन्तर्गृहे दुर्गते एतादृशे समुत्पन्ने भावि दुःखस्य सूचके शान्ति यज्ञं तु मतिमन् कुर्यात्तद्दो चान्तये देवालये स गोष्ठे वा चैत्येवापि गृहाङ्गणे प्रदेशोन्नतधिष्ण्य वै दिहस्ते च स्वलङ्कुते भारमात्रं व्रीहिधान्यं प्रस्थाप्य परिसृत्य च मध्ये विलिख्य कमलम् तथाधिक्षो विलिख्य वै वे, तन्तोनां वेष्टितं कुम्भम् नवगुणधूपितम् मध्ये स्थाप्य महारकुम्भम् तथाधिक्ष्वपि स नारामकूर्चादीन् कलशां चे तथा च सो पूरयेन्मन्त्रभूतेन पञ्च द्रव्ययुतेन हि प्रक्षिपेन्नवरत्नारि नीलादीन् क्रमश कर्मण्यं च सपत्नेकम् आचार्यं वरयेद्बुध सुवर्ण प्रतिमां विष्णो इन्द्रादीनां च निक्षिपेत् स शरीरस्थे मध्यकुम्भे विष्णुमावाय पूजयेत् प्रागादिषु यथा मन्त्रम् इन्द्रादीन् क्रमशो यजेत् तत्तन्नाम्ना चतुर्थ्यां च नमो तेन यथा क्रमम् आवाहनादिकं सर्वम् आचार्येणैव कारयेत् आचार्य ऋत्विजा सार्धम् तन्मात्रा प्रपजे शतम् कुम्भस्य पश्चिमे भागे जपान्ते होममाचरेत् कोटिं लक्षसहस्रं वा शमष्टोत्तरम् बुधा एकाहं वा वा तथा मण्डलमेव वा यथायोग्यम् प्रकुर्वीत् कालदेशानुसारतः शमी होम च शान्त्यर्थे वृत्त्यर्थे च पलाशकम् समेदन्नाद्य नान्ना मन्त्रेण बाहुले प्रारम्भे यत्कृतं द्रव्यं तत्क्रियान्तं समाचरेत् पुण्याहं वाचित्वान्ते दिने सम्प्रोक्षयेज्जले ब्राह्मणान् भोजयेत् पश्चात् यावदाहुति संख्यया आचार्यश्च हविष्यासी ऋत्वेजश्च भवेद्बुधा आदि इत्यादीन् ग्रान् दृष्ट्वा सर्वहो मान्त ऋस्विभ्यो दक्षिणां दद्यात् नवरम् यथा क्रमम् दशदानं तथा कुर्यात् भूरिदानं ततः परं बालानाम्पण्डितानां गृहिणां वनिनां धनं कन्यानां च भर्तॄणां विधवानां ततः परं तन्त्रोपकरणं सर्वम् आचार्याय निवेदयेत् उत्पातानां च मारीणां दुष् दुःखस्वामीयमक् स्मृत तस्माध्यमस्य प्रीत्यर्थम् कालदानम् प्रदापयेत् शतनिष्केन वा कुर्यात् दशनिष्केन वा पुनः पाषाङ्कुशधरम् कालम् कुर्यात् पुरुषरूपिणम् तत्सर्ण प्रतिमादानम् कुर्याद् दक्षिणया सिलदानं तथा कुर्यात् आज्यावीक्षणदानञ्च कुर्याद् व्याधि निवृत्तयेत् सहस्रं भोजयेत् विप्रान् दरिद्र शतमेव वा वित्ताभावे दरिद्रस्तु यथाशक्ति समाचरेत् भैरवस्य महापूजा कुर्याद्भूता निशान्तयेत् महाभिषेकम् नैवेद्यम् शिवस्यान्ते तु भोजयेत् पश्चात् भूरि भोजनरूपतः एवं कृतेन यज्ञेन तोषशान्तिम् अवाप्नुयात् शान्तिम् यज्ञमिमम् कुर्यात् वर्षे वर्चे, वर्चे तु फाल्गुणे दुर्दर्शनादौ सद्यो वै मासमात्रे समाचरेत् महापादि मा सम्प्राप्तो कुर्याद् भैरवपूजनम् महाव्याधि समुत्पत्तौ सङ्कल्पम् पुनराचरेत् सर्वा भावे दरिद्रस्तु दीपदान मथाचरेत् तदप्यशक्तमाचरेत् दिवाकरं नमस्कुर्यान् पञ्चोत्तरं शतं सहस्रम् अयुतं लक्ष्यं कोटिं वा कारयेद्बुध नमस्कारात्म यज्ञेन तुष्टासु सर्वदेवताः तत्सरूपेऽर्पिता बुद्धिः न ते शून्ये च रोचते या चास्त्यस्मत् दहन्तेति त्वयि दृष्टे विवर्जिता न म्रोहम् हि स्वदेहेन भो महान्तमसि प्रभो न शून्यो मत्स्वरूपो वै तव दासोऽस्मि साम्प्रतम् यथायोग्यम् स्वात्मयज्ञम् नमस्कारम् प्रकल्पयेत् दत्त्वा ताम्बुलमाहरेत् शिवप्रदीक्षणम् कुर्यात् स्वयम् अष्टोत्तरम् शतम् सहस्रम् अयतं लक्षम् कोटिमन्येन कारयेत् शिवप्रदीक्षिणात् सर्वम् पातकम् नश्यति क्षणात् दुःखस्य मूलम् व्याधिरि व्याधे मूलम् हि पातकम् धर्मेणैव हि अपनोदनमीरितम् शिवोद्देश कृतो धर्म क्षमपा विनोदने अध्यक्षम् शिवधर्मेषु प्रदक्षीणमितीतं क्रियया जपरूपम् हि प्रणवम् तु प्रदक्षिणम् जननम् मरणम् दन्नम् मायाचक्रमितीतम् शिवस्य मायाचक्रैः बलिपीठं तदुच्यते बलिपीठम् समारभ्य क्षिण्यक्रमेण वै पदे पदान्तरं गत्वा बलिपीठं समाविशेत् नमस्कारं तदप् कुर्यात् प्रदक्षिणमितीरितं निर्गमाज्जनम् प्राप्तम् नमस्त्वात्म समर्पणम् जननं मरणम् द्वन्द्वम् शिवमाय समर्पितम् शिवमायार्पित द्वन्द्वो न पुनः स्वात्मभाग् भवेत् यावद्देहम् क्रियाधीनः स जीवो बद्ध उच्यते देहत्रये वशीकारे मोक्ष इत्युच्यते बुधै मायाचक्रप्रणेता हि शिव परमकारणम् शिवमायार्पितद्वन्द्वम् शिवस्तु परिमार्जति शिवेन कल्पितम् द्वन्द्वम् तस्मिन्नेव समर्पयेत् शिवस्यातिप्रियम् विद्या प्रदक्षिणं नमो बुधा प्रदक्षिणा नमस्कारा शिवस्य परमात्मनः षोडशी उपचारे च कृता पूजा फलाप्रदा प्रदक्षिणा विनाशं हि पाचकं नासि भूतले तस्मात् प्रदक्षिणेनैव सर्वपापं विनाशयेत् शिवपूजा परो सत्यादि गुणसंयुतः क्रिया तपोजपज्ञानेष्वैकैकमाचरे ऐश्वर्यं दिव्यदेहश्च ज्ञानमज्ञानसंशयः शिवसान्निध्यमित्येतत् क्रियादीनां फलं भवेत् करणेन फलं याति तमसे परिहापनात् जन्मदे परिमार्जित्वात् न बुद्ध्याय जनितानि यथा देशम् यथा कालम् यथा देहम् यथा धनम् यथा योग्यम् प्रकुर्वीत क्रियादिन् शिवभक्तिमान् न्यायार्जित सुवित्तेन वसित्राज्ञ शिवस्थले जीवैन् स्वादिरयितम् अतित्वेष विवर्जितम् पञ्चाक्षरेण जप्तम् च तोयम् मन्नम् विदुत्सुखम् अथवा हु भिक्षान्नम् ज्ञानदम् भवेत् शिवभक्तः च भिक्षान्नम् शिवभक्ति विवर्धनम् शम्भु सत्रमिति प्राहु भिक्षान्नम् शिवयोगिनः येन केनाप्युपायेन यत्र कुत्रापि भूतले शुद्धा न भुक्त मौनि प्रकाशयेत् प्रकाशयत्तु भक्तानाम् शिवमाहात्म्यमेव हि स्यम् शिवमन्त्रस्य शिवो जानातिनापरः शिवभक्तो वसे नित्यम् शिवलिङ्गम् समाश्रितःणुलिङ्गाश्रयेणैव शाणुर्भवति भूसुरा कोलया सुरलिङ्गस्य क्रमान्मुक्तो भवे ध्रुवम् सर्वम् मुक्तम् समासेन साध्य साधनमुत्तमम् व्यासेन यत्पुरा प्रोक्तम् यच्छ्रुतम् हि मया पुरा वज्रमस्तु हि शिवभक्ते दृढास्तुता यमम् पठति ध्यायम् यः शृणोति नरसदा शिवज्ञानम् स लभते शिवस्य कृपया बुधा इति श्रीशैवे महापुराणे प्रथमायाम् विद्येश्वरसंहितायाम् शिवलिङ्ग महिमावर्णनं नैव अष्टादशोऽध्यायः श्रीगौरी शङ्करार्पणमस्तु